हरि ओम् श्री सीता रामचन्द्राभ्यां नमः अथ श्रीमद् वाल्मीकि रामायणे युद्धकाण्डे विञ्च सर्गः शार्दूल प्रेरणया रावणेन शुकं दूतीकृत्य तद्वारा सुग्रीव सविधे सन्देशस्य प्रेषणम् तत्र वानरकृता तदीया दुरवस्था श्रीरामस्य अनुग्रहेण तस्य क्लेशतो मोक्षणम् सुग्रीवेण च रावणम् प्रति उत्तरदानम् ततो निवेत्ताम् ध्वजनीम् सुग्रीवेणाभिपालिताम् ददर्श राक्षसोऽभ्येत्य शार्दूलो नाम विद्यवान् चारो राक्षसराजस्य रावणस्य दुरात्मनः तां दृष्ट्वा सर्वतो व्यग्राम् प्रतिगम्य स राक्षसः अविश्य राजानम् इदमब्रवीत् एच वैवान रक्षोः लङ्कां स माभिवर्तते अगाधे चाप्रमेयश्च द्वितीय इव सागर हे पुत्रौ दशरथस्येमौ भ्रातरौ रामलक्ष्मणौ उत्तमौ सीताया पदमागतौ एतौ सागरमासाद्य सन्निवेष्टो महाद्युते बलं चाकाशमावृत्य सर्वतो दशयोजनम् तत्त्वभूतं महाराज क्षिप्रं वेदितुमर्हसि तव दूता महाराज क्षिप्रम् अर्हन्ति वेदितुम् उपप्रदानं सान्त्वं वा भेदो वात्र प्रयुजताम् शार्दूलस्य वच रावणो राक्षसेखर उवाच सहसा विग्रह सम्प्रधार्यार्थमात्मनः शुकं साधूतदारक्षु वाक्यमर्थ विदाम्बरम् सुग्रीवं ब्रूहि गत्वाशु राजानं वचनान् नभ यथा सन्देशमक्लीबं शक्नय परया गिरा त्वं वै महाबल चुक्षर सुतनाथ स्तव ना भ्रातृतमोहरीश अहम यदीयरम भरियापुत्र से धीमता किम तव सुग्रीव कि गम्यता न ही लंका शक्या कतंजने देवै अपि सगन्धर्वैः किं पुनर्नर्वे स तदा राक्षसेन्द्रेण सन्देशोऽर्जुने चरः शुको विहङ्गमो भूत्वा पूर्णम् आप्लुत्य चामरम् स गत्वा दूरमध्वानम् उपरि उपरि सागरम् संस्थितोऽयं वरे वाक्यम् सुग्रीवम् इदमब्रवी सर्वम् मुक्तम् विधादिष्टम् रावणेन दुरात्मना तत्प्रापयन्तं वचनम् पूर्णम् अप्लुत्य वा नरः प्रपद्यन्ते तदा क्षेप्रम् लोक्तुम् हन्तुं च मुष्टिभिः सर्वै प्रवङ्गे प्रसभम् निगृहीतो निचाचरहे गगना चाशु प्रतिगृह्य अवतारितः वानरे पीड्यमानस्तु शुको वचनमब्रवीत् न दूतां दन्तिका कुद्दे वार्यन्तां साधु वानर यत्त्वा मतं भर्तु स्वमतं सम्प्रसारयेत् अनुक्तवादि दूतस्तूतो वदमर्हति शुकस्य वचनं राम्रे श्रुत्वा परिदेवितं वाचे उवाचे मा वधिष्ठेति ग्रतैशाखा मृगशभन् स च पुत्र अभये अन्तरिक्षे स्थितो भूत्वा पुनर्वचनमब्रवीत् रुग्रीव सत्त्वसम्पन्न महाबल पराक्रमे किं भया रावणो लोक रावण स एवं मुक्तः प्लव प्लवगाधिपतदाय प्लवङ्गमानां वृषभूमाबल वाचवाक्यं रजनेचरस्य चारं शुकं शुद्धमदीन सत्वे न मे नेतुमित्रं न तथानुकम्प्यो न चोपकर्तासि न मे प्रियोऽसि हरिच रामस्य सहानुबन्धे ततोऽसि राव वालीवदार्ह वध्य न्यन्यहं तां स सुतं बन्धुम् सञ्ज्ञाति वर्गम् वृजनेचरेश लङ्काञ्च सर्वाम् हृताबलेन सर्वैकलेशामि समेत्य भस्म न मोक्षसी रावणराघवत्यै सुरे सेन्द्रैरपि मूढगुप्ते अन्तर्हि तत् सूर्यपथङ्गतोऽपि तथैव पातालमनुप्रवीश गिरीश पादाम्बज सङ्गतो वा शिवतोऽसि रामेण सानुजस्तम् तस्य ते त्रिषु लोकेषु न पिशाचम् न रक्षसम् त्रातारम् नानुपश्यामि न ना गन्धर्वम् न चासुरम् अवधीस्तम् जरावृद्धम् किं नूते रामसान्निध्ये सकाशे लक्ष्मणस्य चेत् हृता सीता विचाराक्षि यां तम् गृह्यः न बुध्यते महाबलम् महात्मानम् दुराधर्षम् सुरैरपि न बुध्यते रघुश्रेष्ठम् यस्ते प्राणान् हरिष्यति तत्तो ब्रवीद्वालिसुतोऽपि अङ्गरो हरिषत् तमे महाराज चारिक प्रतिभासी मे तुल बल अनेवती ग्रूह्यतागमल्भी मोचते तथो राजपत्त बलिमुख जगृह बंधु विलपन तम अनाथवे शिखस्तु वानरै चण्डै तत्र तैः सम्प्रपीडितः वाचुक्रोश राचुक, महात्मानम् रामम् दश रथम् दुप्येते मे बलत् पक्षौ ते मे तथाक्षिणे यां च रात्रिं मरिष्यामि जाये रात्रिं च यामहम् काले यन्मया ह्यभुषं कृतं सर्वं तदुपपद्येत् जह्यां चेत् यदि जीवितं नाघातयत्तदाराम श्रुत्वा तत्परि देवितं वानरान्न विध्रामो मुचतां दूता गतः इत्याच्ये मन् रामायणे वाल्मीकि युद्धकाण्डे विच श्री सीतारमचन्द्रार्पणमस्तु